श्रीहरये नमः अथ नवमोऽध्यायः श्रीशुक उवाचाम् अंसूमांश्च तपस्तेपे गङ्गानयनकाम्यया कालं महान्तं नासज्ञो ततः कालेन दिलीपस्तत्सुतस्तद्वत् असक्तः कालमे इवान् भगीरथस्तस्य पुत्रस्ते पे समहत्तपः दर्शयामास अभिप्रायं ससंसावनतो नृपः कोऽपि वेगं पतन्त्या मे महीतले अन्यथा भूतलं पिद्वा नृपयास्ये रसातलं किं साकं यास्ये नरामयां रामय्या मृजन्त्यघं वृजामि तदघं कुत्र राजन्स्तत्र विचिन्त्यताम् बहिरथ उवाच साधवो न्यासिनः शान्ता ब्रह्मेष्ठालोकपावनाः हरं त्यगन्तेऽसङ्गातेष्वास्ते ह्यगभित् हरिः धारयिष्यति ते वे गरुद्धस्त्वात्मा शरीरिणां यस्मिन् ओतमिदं प्रोतं विश्वं साटीवतन्तुषो इत्युक्त्वा स नृपो देवं तपसा अतोक्षयच्छिवं कालेन अल्पीयसा राजन्तस् एषः समतुष्यत ततेति राज्ञाभिहितं दधारावहितो गङ्गां पादभूतजलां हरे हे भगीरथस्थ राजर्षिर्णिन्ये भुवनपावनीं यत्र स्वरुपितॄणां देहाभस्मीभूतास्म से रथे रथेन वायुवेगेन प्रयान्तमनुधावती देशान् पुनन्ती निर्धक्तान् आसिञ्चत्सगरात्मजान् यज्जलस्पर्शमात्रेण ब्रह्मदण्डगता अपि सकरात्मजा दिवं जग्मुख्ये वलं देहभस्मभिः भस्मीभूताङ्कसंज्ञेन स्वर्याता सघरात्मजाः किं पुनः श्रद्धया देवीं ये सेवन्ते धृतौ व्रताः न ह्येतत् परमाश्चर्यं स्वर्धुन्याय दिहोदितम् अनन्तचरणाम्भोजप्रसूताया भवश्चिदः संनिवेश्य मनो यस्मिन् श्रद्धया मुनयो मलाहात् त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यादास्तदात्मताम् श्रुतो भगीरथा जज्ञे तस्य नाभो परोभवत् सिन्धुद्वीपस्ततस्तस्मात् अयुतायुस्ततोभवत् ऋतुपर्णो नलसखो योऽस्वविद्यामयान्नत् दत्वा चास्मै सर्वकामस्तु तत्सुतः ततः सुधातस्तत्पुत्रो मद् मदयन्तीपथिर्नृप आहुर्मित्रसहं यं वै कल्माशाङ्घ्रिमुतः राजोवाच किं निमित्तो गुरोशापसौधासस्य महात्मनः एतत् वेदिचुमिच्छाम कथ्यतां नरहो यदि श्रीशुक सौधासो मृगयां किञ्चिच्चरन् रक्षो जघानः मुमोच भ्रातरं सोतगतः प्रतीचिकीर्षया स चिन्त्यन्न गं राज्ञतरूपो धरो गृहे गुरवे भोक्तु कामाय निन्येन रामिशं परिवेष्यमाणं भगवान् विलोक्षभक्षं भक्षं राजानम् अशभ्रद्धो रक्षो ह्येवं भविष्यसे रक्षकृतं तत् चक्रे द्वादशवार्षिकं सोप्यभूञ्जलिनाधाय गुरुं सप्तुं समुद्यतः वारितो मदयन्त्यापोष् रुषधीः पातयोर्जहो दिशक्कम् सर्वं पश्यन् जीवमयं नृपः राक्षसंभावमापन्त ल्मा व्यवायकाले दत्तृषे वनौको दम्पति क्षधार्तो जगृहे विप्रं तत्पन्याहाकृतार्थवत् न भवान् राक्षसः साक्षात् इक्ष्वाकूणामहारथः मदयन्त्या पतिर्वीरनाधर्मं कर्तुमर्हसे देहि अपत्यकामाया अकृतार्थं पतिं द्विजं दोहयं मानुषो राजन्पुरुषस्या किलार्थदः तस्मादस्य वधो वीर सर्वार्थभदमुच्यते एष हि ब्राह्मणो विद्वान् तपःशीलगुणान्वितः आरिधायिषुर्ब्रह्म महापुरुषसङ्गीतं सर्वभूतात्मभावेन भूतेषु अन्नितिर्हितं गुणैः सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद्विभो कथमर्हति धर्मज्ञम् पितुरिवात्मजः तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः कथं वधं यथा भभ्रोर्मन्यते सन्मथो भवान् यद्ययं क्रियते भक्षस्तर्हि मां काधपूर्वतः न जीविष्ये क्षणं च यथा एवं करुणभाषिण्या विलपन् अनाथवत् व्याघ्रः पशुमिवाघाधदौ ब्राह्मणी वीक्ष दि पुरुषादेन भक्षितं सोचन्द्यात्मानं बुर्वीशम् अशपत्कुपिता यस्मान्मे भक्षितः पापः कामर्तायाः पतिस्त्वया तवापि मृत्युराधानात् अकृतप्रज्ञदर्शितः एवं मित्रसहं सप्त्वा पतिलोकपरायणाम् तदस्तिनी समिद्धेघ्नौ प्रास्य भर्दुगतिं गता विशापो विज्ञाय ब्राह्मणी शाभं महिष्या स निवारितः तथ ऊर्ध्वं स तद्या श्रीसुखं कर्मणा प्रजाः वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधाद् सा वै सप्तसमागर्भम् अभिभ्रन्तव्यजायत जज्ञे स्मनोदरं तस्यासोऽस्मकस्तेन कथ्यते अस्माकन्मूलो जज्ञे रक्षिता नारी कवच नक्षत्रे मूलकोभवशरथस्त बीडत राजा विश्वसहो यस्य कट्वाङ्गश्चक्रवर्त्यभूत् यो देवैरर्तितो दैत्यानवधीत्युदिदुर्जयः मुहुर्तमायोर्ज्ञात्वैत्यस्वपुरं सन्दते मनः न मे ब्रह्मकुलात् प्राणाकुलदैवान्न च आत्मजाः न श्रियो न महीराजं न दारश्चातिवल्लभाः धर्मे रमते क्वचित् नापस्यमुत्तमश्लोकात् अन्यत् किञ्चन वस्त्वहं देवैः कामवरोधत्तो मह्यं त्रिभुवनेश्वरैः न वृणेतमहं कामं भूतभावन भावनः ये विक्षिप्तेन्द्रियतियो देवास्ते स्वहृदि स्थितं न प्रियं शश्वत् आत्मानं किमुता परे अते समाया रचितेशु संगं गुणेषु गन्धर्व पुरोपमेषु रूटं प्रकृत्यात्मनि विश्वकर्तु भावेन हित्वा समहम् प्रब्ये इति हित्वान्यभावमज्ञानं ततः स्वं भावमाश्रितः यद्यद्ब्रह्मपरं सूक्ष्म अशून्यं शून्यकल्पितं भगवान् वासुदेवेति यं गृह्णन्ति हि सात्वताः इति श्रीमद्भागवते मकापुराणे नवमस्कन्दे सूर्यवंशानुवर्णने नवमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथराजिकी जय